सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च सर्वायुधमहामात्रं परसैन्यप्रघर्षणम् एकं शतसहस्रेण संमितं राष्ट्रवर्धनं चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् देवदानवगन्धर्वैः पूजितं शाश्वतीसमाह प्रादाच्चैव धनुरत्नमक्षैये च महेषु धी दिव्याश्वयुजं कपिप्रवरकेतनं उपेतं राजतैरश्वैर्गान्धर्वैर्हेम मालिभिः पाण्डुराभ्रप्रतीकाशैर्मनो वायुसमैर्जवे सर्वोपकरणैर्युक्तमजय्यम् देवदानवैः भानुमन्तं महाघोषं सर्वरत्नमनोरमं ससर्जयं सुतपसा भौमनो मनो